षटसोऽध्यायः ध्यानम् ॐ नागाधीश्वरविस्तराम् फणिफणोत्तम् कोरु रत्नावली षटसोऽध्यायः ध्यानम् ॐ नागाधीश्वरविस्तराम् फणिफणोत्तम् कोरु रत्नावली भास्वद्देहलताम् दिवाकरनिभाम् मे प्रत्ययोद्भासिताम् भास्वद्देहलताम् दिवाकरनिभाम् ने प्रत्ययोद्भासिताम् मालाकुम्भकपालनीरजकरान् चन्द्रार्भटूडाम् पराम् मालाकुम्भकपालनीरजकरान् चन्द्रार्भटूडाम् पराम् सर्वज्ञेश्वरभैरवाङ्कनिलयाम् पद्मावतीम् चिन्तये सर्वज्ञेश्वरभैरवाङ्कनिलयाम् पद्मावतीम् चिन्तये ॐिर्वाच इत्याकर्ण्यवचो देव्यास्पदूतो मर्षपूरितः इत्याकर्ण्यवचो देव्यास्पदूतो मर्षपूरितः समादष्टसमागम्य दैत्यराजाय विस्तरात् समाजष्टसमागम्य दैत्यराजाय विस्तरात् सरस्यदूतस्य तद्वाक्यमाकन्यातुरराष्ट्रतः सरस्यदूतस्य तद्वाक्यमाकन्यातुरराष्ट्रतः शक्रोधप्राहदैत्यानामधिपम् धूम्रलोचनम् तक्रोधप्राहदैत्यानामधिपम् धूम्रलोचनम् हे धूम्रलोचनासुत्वम् स्वसैन्यपरिवारितः हेधून्द्रलोचनासुत्वम् स्वसैन्यपरिवारितः कामानयबलाद्दुष्टाम् एकाकर्षणविश्वलामानयबलाद्दुष्टाम् एकाकर्षणविश्वलाम् तत्परित्राणरः कश्चिभ्यरिवोच्चिष्ठते पदः तत्परित्राणरः कश्चिभ्यरिवोत्तिष्ठते पदः सहन्तव्यो मरो वादि यक्षोगन्धर्व एव सहन्तव्यो मरो वाति यत्योयम् गर्व एव वा शिशिर्वासः तेनाज्ञप्तस्ततशीघ्रम् सदैत्योधूम् रलोतनः तेनाज्ञप्तस्ततशीघ्रम् सदैत्योधूम्रलोतनः ऋतश्चरस्यासह्राणाभसुराणाम् दृसंयौ कृतश्चरस्यासहस्राणाभसुराणाम् दृसंयौ सदृष्ट्वाताम् ततो देवीम् तुहिनाचलसंस्थिताम् सदृष्ट्वाताम् ततो देवीम् तुहिनाचलसंस्थिताम् जगादोश्चैष्टयाहीति मूलम् शुम्भनि शुम्भयोः जगादोश्चैष्टयाहीति मूलम् शुम्भनि शुम्भयोः नरेत्रीत्याद्य भवती भद्भक्तारमुपैष्यति नरे श्रीत्याद्य भवती भर्तारमुपैष्यति ततो बलानयाम्येषाकर्षणविश्वलाम् ततो बलानयाम्येषकेताकर्षणविश्वलाम् देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलतम् वृतः दैत्येश्वरेण प्रहितो बलवान् बलतम् वृतः बलान् नयसि मामेव ततः ते करोम्यहम् बलान्नयसि मामेव ततः किम् ते करोम्यहम् ऋषिरुवाच इत्युक्तत्वोऽभ्यधावत्तावसुरो धूम्ररलोदनः इत्युक्तत्वोऽभ्यधावत्तावसुरो धूम् ्रलोदनः पुङ्कालेनैव तम् भस्मसाचकाराम् विकाततः पुङ्कालेनैवतम् भस्मसाचकाराम् विकाततः अथ क्रुद्धम् महासैन्यभतुराणाम् तथाम् विका अथ क्रुद्धम् महासैन्यमसुराणाम् तथाम्बिका प्रवलर्कसायकैत्येक्नेत्तथाशक्तिपरश्वधैः कवर्कसायकैत्येक्नेत्तथाशक्तिपरश्वथैः ततोऽद्भुतसकः कोपात् ततो कृत्वानादम् सुखैरवम् ततोऽद्भुतसकः कोपात् कृत्वानादम् सुखैरवम् पपातासुरसेनायाम् सिंहोदेव्या पपातासुरतेनायाम् सिंहोदेव्यास्ववाहनः कांश्चित् करप्रहारेण दैत्यानास्येन चापरान कांश्चित् करप्रहारेण दैत्यानास्येन चापरान आक्रम्यचाधरेण्यान् सजघा नुरान आक्रम्यचाधरेण्यान् सजघानमहादुरान केषाम् चित्पाटयामासनकैः कोष्ठानिकेसरी केषाञ्चित्पाटयामासनकैः कोष्ठानिकेसरी तथा तलप्रहारेण शिरांसि कृतवान् पृथक पपौ चरुधिरम् कोष्ठादन्येताम्भुदकेतरः पपौ चरुधिरम् कोष्ठादन्येताम्भुदकेतरः क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना तेन केसरिण श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् चक्षयुतम् कृष्णम् देवीकेसरिनाततः बलम् चक्षयितम् कृष्णम् देवीकेसरिणा ततः सुगोपदैत्याधिपतिस्तुम्भ आज्ञापयामा सजतौ दण्डमुण्डौ महासुरौ आज्ञापयामा सजतौ कण्डमुण्डौ महासुरौ हे दण्डहे मुण्डवलैर्बहुभिः परिवारितौ हे दण्डहे मुण्डबलैर्बहुभिः परिवारितौ तत्र गच्छतगत्वा च सातमानीयताम् लघु तत्र गच्छतगत्वा च सातमानीयताम् लघु केशे त्वा कृष्यबध्वा वा यदिवत्थम् शयो युधि केशे त्वा कृष्यबध्वा वा यदिवत्थंशयो युधि तदा ते जायुधैस्सर्वैरसुरैर्विनिहन्यताम् तदा ते जायुधैस्सर्वैरसुरैर्विनिहन्यताम् तस्याम् हतायाम् दुष्टायाम् सिंहे विनिपातिते पत्याम् हतायाम् दुष्कायाम् सिंहे च विनिपातिते शीघ्रमागम्यताम् मध्वा गृहीत्वा